े यस्यैपदाजि दक्षिणामनयत् ताम्लीनात् ते ब्रुवन् व्यावृत्यप्रतिगृह्णाम तथा नो दक्षिणानवलेश्चि रे व्यावृत्त्यप्रत्यगृह्णन् ततो वेदान् दक्षिणानाब्लीनात् एवम् वेदान् व्यावृत्यदक्षिणाम् प्रतिगृह्णाते ैनम् दक्षिणाब्लीनादि राजा त्वा वरुणानगेव दक्षिणे हैरण्यमित्याह आग्नेयम् वैरण्यम् स्वदैवैनद्देवतया प्रतिगृह्णाति सोमार्यवास इत्याह सौम्यम् वैवादः स्वदैवैनदेवतया स्वयैवैनाम् देवतगा प्रतिगृह्णाति वरुणायाश्वमित्याह दे। वारुणो वाश्वः स्वरेवैनम् देवतग प्रतिगृह्णाति प्रजावतगेव पुरुणमित्याह राजावत्यो वे पुरुणः स्वरेवैनम् देवतया प्रतिगृह्णाते मानवेदल्पमित्याह मानवो वेदल्पः स्वरेवैनम् देवतग प्रतिगृह्णाति उत्तानायाङ्गीरसाया न इत्याह इयम् वा उत्तानाङ्गीरसः अनदेवेन प्रतिगृह्णाति अयिश्वानिर्व्यच्चारम् प्रतिगृह्णाति अयिश्वानो दे। वै देवतया सह स्वदेवेन देवतया प्रतिगृह्णाति दे। तेनामसप्तमस्यामित्याह अभुतमेवात्मन्धत्ते वयोधात्र इत्याह वयदेवेनम् कृत्वा स्वर्गम् लोकङ्गमयति मयो मह्यमस्वप्रग्रहेत्रयुद्याः यद्वैष् आत्मनदेवैकापरेदम् कस्मादादित्याह प्रजापदर्वेदः स प्रजापदये ददाति कामः कामायेत्याह कामेन हि ददाति कामो हिता कामप्रतिगृहीता कामकम् समुद्रमाविशेत्याह समुद्रयिबहि कामः ने बहि कामस्यान्तोऽस्ति न समुद्रस्य कामेन त्वा प्रतिगृह्णामेत्याह येन कामेन प्रतिगृह्णाते स एव कामरेव तद्विजमानामुष्पल्लोकेन दक्षिणामिच्छति न प्रतिगृहीतरि एवम् विद्वान् दक्षिणाम् प्रतिगृह्णाति अणादेवैनाम् प्रतिगृह्णाति अन्तो वा एत यज्ञस्य यद्दशममः दशमेऽहम्पराज्ञाभ्यस्तवन्ति यज्ञस्यैवान्तम् गत्वा अन्नाद्यमवरुन्धतेभ्यस्तवन्ते लोकाः येभ्य एव लोकेभ्योऽन्नाग्निमवरुन्धते प्रश्नपतेर्भवन्ति अन्नम् वै प्रश्ने अन्नमेवावरुन्धते मनसा प्रस्तौते मनसोद्गारते मनसा प्रतिहरति मनैः प्रजापतिः प्रजापतेराज्ञैः देवा वै सर्पाः राज्ञी यत्सर्पराज्ञिना निभ्यस्तवन्ति पस्यामेव प्रतिष्ठन्ति चतुर्होत्रे न होता व्याजष्टे सुतमनशंसति शान्त्यैः अन्तोवादेश यज्ञस्य यद्दशमवः एतत्खलु वै देवानाम् परमम् गुह्यम् ब्रह्म यच्चतुर्होतारः दशमे ह्यश्चतुर्होत्रे व्याजष्टे गत्वा परमम् देवानाम् गुह्यम् ब्रह्मापरम् तदेव प्रकाशम् गमयति तदेनम् प्रकाशम् कथम् प्रकाशम् प्रजानान्नगमयति वाचै यच्छति यज्ञस्य सर्त्यै यजमानदेवत्यम् वाह भातुर्वदेवत्या रात्रिः अह्नात्रिम् ध्यायेत् <apolis> भातु्य श्रीवदम् लोकम् वृन्दे यजिवाचम् विसृजेत् महद्धातुर्व्यागवक्षिकम्भेत् यन्नक्तम् विसृजेत् रात्रिभ्रातर्यादवच्छिगुंषे अधिकौर्ये वाचम् विसृजते एतावन्तमेवात्मैलोकमच्छिंशते यापदादित्यो स्तमेते प्रजापति प्रजासृजता प्रजा ताः सृष्टाः समश्लिष्यन् ता रूपेण न प्राविशत् तस्मादाहो रूपम् वै प्रजापतरते तानाम्ना न प्राविशत् तस्मादाहो ना भवेत् प्रजापचरिते तस्मादप्यामित्रौ सङ्गत्या नाम् राजेभरे भवतः प्रजापजर्देव सुरासजट्रमभिलास तेवाबुरान् इन्द्रम् राजनयेत् सा आत्मन्निन्द्रमपश्यत् तमसजदा तम् दृष्टग्म् भूत्वा न प्राविशत् तस्य मज्जः पञ्चदशो हस्तः पद्य एनोदय्यासरा यदेवम् वेद अभिर्भ्यादुर्व्यान् भवति एतेवासुरे विजित्या स्वर्गम् लवकमायन् ते मष्टम् लोकेऽभ्यक्षुभ्यन् ते हे ब्रुवन् अमुदप्रदानम् वा उपजे विवेते एतप्तः यज्ञाभिधा जायास्यम् आङ्गेतम् प्राहिण्वन् एतेनामुत्र कल्पयेते तस्य वा इयम् वृत्तिः यदिदम् वेदा, यदेवम् वेद कल्पते यस्मै स वा अयम् मनुष्ये यज्ञः सप्तहोदा अमुक्तसद्भ्यो देवेभ्यो हव्यम् वहति यजेवम् वेद उपयन यज्ञानमते सोऽनन्योकासमल्लोकम् गमिष्यन्तमिति सवाजस्पदे हृदिहरते तस्मात् पुत्रो हृदयम् तस्मादस्माल्लोकादमल्लोकन्नाभिकामयन्ते पुत्रो हि हृदयम् देवातभिज्ञमदन्वता ते पिबात्मनाभ्यातिर्वेणाजयन्त अभिधवर्गम् लोकमजयन् यदेवम् विद्वातभिर्व्यन्तर्वेण दीयते अभिधवर्गम् लोकम् जयते षड् प्राणीयमासादयति अमस्तैवे लोकाय दा भ्रन्ति खलुवादेतत्सोमम् यदभिरुन्ते वृथैवैनमम् लोकम् गमयति चतुर्होत्रादित्यम् विशावै चतुर्होता विषदेवात्मन्धत्ते पञ्चहोत्रा पशुमुपसादयति स्वर्गो वै पञ्चहोता विजमानः पशुः विजमानमेव पशुवर्गम् लोकम् गमयति इन्द्रियम् वै सप्त होदः इन्द्रियमेवात्मम् धत्ते युवै चतुर्होतेर्णसुणम् तर्पयते प्रदयापशुभिः उपैरकम्पदे वैष्णपमानेशहोतारम् व्याचक्षीत माभ्यन्दिने पवमाने चतुर्होतारम् आर्भवे पवमाने पञ्चहोतारम् ऋज्ञेभ्रहतारम् यज्ञायुग्रियस्य स्तोत्रे सप्तहोतारम् अनुसवनमेवैनागिस्तर्पयति कृप्यति प्रजयापदभिः उभयेन देवापे चतुर्होदभिः सप्तमातराः हे गुरुवण्य यन्न प्रथमञसृच्छात् सर्वेषा नत्रत्सहामश्चतुर्होत्रा पज्ञः पञ्चहोत्रा धाता षट्भो हात्रा इन्द्रः सप्तहो हात्रा प्रजापद्रात्रेकुम् राजा अन्यकामयतामद तेन ते प्रलायमचर तम् देवाः प्रैषैः प्रैषमैच्छन् तत्प्रैषाणाम् प्रैषत्वम् निविडभ्यवेदयन् तन्निविदान्निवित्वम् आप्रेभिराप्नुवन् तदा प्रेणामाप्त्वम् अवभ्यान् तस्य यशोऽप्यगृह्णता ते ग्रहाभवन् तद्ग्रहाणाम् ग्रहत्वम् यस्यैवम् यशो ग्रहा गृह्यन्ते तस्य त्वेमगृहीताः ते ब्रुवन् योगेन श्रेष्ठोऽभूज तमवधिष्मा पुनरिवम् सुभामः इति साम्नाशमानयन् तत्साम् न सामत्वम् मुख्यैरस्थापयन् तुनामुखत्वम् एवम् वेद वर्त्येव स्वमोहेशः एवम् विद्वान् स्वममागच्छति यदेवेन पृच्छते तस्मादाहुः यश्चैवम् वेद यश्च न भवतः स्वमोहेशः तन्त्वाव यश लक्षते इत्याहो यः सोमे स्वामम् सो प्राहेते तस्मात् सोमे सो स्वामः यश एवेन मृच्छति इदम् वा अग्रेणैव किञ्चनासीदेत् न द्यौरासीत् न पृथिवे नान्तरिक्षम् परसदेव सन्मनाकरुतस्यामिति तदप्यता तस्मात् पानाद्भूपाजागता तद्भोजालप्यता तस्मात् पानादज्ञरजायत तद्भोजागप्यता तस्मात् बाणाज्योतिरजायत तद्भोजादप्यता तस्मात् पाणादच्छिरजायत तद्भोजागप्यत तस्मात् पाणान्मरीचिरो जायन्त तद्भोजागप्यता तस्मात् पाणादुदाराजायन्त तद्भोजागप्यता न्यत अरद्वस्तिमभिनते स समुद्रा भवत् तस्मात् समुद्रस्य न पिबन्ति प्रजनविषयमन्यन्ते तस्मात् पथो पुरस्ताद्यन्ते तद्दश होतान्वसर्जत प्रजापतिर्वे दश होता एवन्तपसो वीर्यम् विद्वा विस्तप्यते भवत्येव तद्वा स रोदे प्रजापतेः सकस्माग् च इति यदस्वपापद्यत सा पृशव्य यद्यमृष्टा तदन्तरिक्षमभवत् यदोर्ध्वमुदमृष्ट सा जौदभवत् यदरोदे वेद नास्य गृहे रदन्ति एतद्वारेकाम् लोकानाम् जन्म यदेवमेकाम् लोकानाम् जन्मवेद नैषु लोकेष्वार्थिमाक्षति स इमाम् प्रतिष्ठामविन्दता स इमाम् प्रतिष्ठाम् विद्वागामय प्रजालेते सदपोदप्यता सोऽहम् तनुवानभवत् स जातु तेभ्य ब्रह्मरे पात्रेण यास्य सा गुणोराधेयेत् कामपाहत सा तमिस्रा भवत् स्वकामेतप्रजा यजेति सदपोदप्यजा सोऽहन्तल्पानभवत् स प्रजरणादेव प्रजासजना तस्मादिमा भूयिष्ठाः प्रजरनाभ्येदासजना ताभ्योदात्रेपजोदुषत् यास्य साधनोरासीयेत् तामपाहता सा जोत्स्ना भवत् स्वकामेतप्रजा यजेति सदपोदप्यता सो सोऽम् दर्वानुभवते सोपवक्षाभ्यामेवत्तो न सजदा तेभ्यो रचते पात्रे घितमदुभते यास्यदा मनोराजेत् तामुपाहता सो सन्धिरभवत् सोऽकामेतप्रजाने चेति रपोरप्यता सोऽवान्भ्यो सो हरिते पात्रे सोममलुभते यास्य सा तनोरासेत् कामपाहत तदहरभवत् एतेवे प्रजापतेर्दोहा प्रजाः विभावेन भूते तद्देवानाहम् देवत्वम् एवम् देवानाम् देवत्वम् वेद देववानेव भवति एतद्बाहोरात्राणाम् जन्म एव बहोरात्राणाम् जन्म वेद नाहो रात्रेष्वाचतिमनोऽसृज्यता प्रजापतिमसजता प्रजापतिः प्रजा असजता तद्वारिदम् मनस्वेव नमम् प्रतिष्ठितम् इदम् किम् च तदेतत्सोपश्रितम् नाम ब्रह्म भृच्छन्तेस्मै वस्य देवस्य देवम् यच्छति प्रजायते प्रजयापसुभिमात्रामाप्नोति एवम् प्रजापतिरिन्द्रमसम् दे देवानाम्प्राठिनोत् परेः एतेषाम् देवानाम् देवाब्रवन् कस्त्वमसि भयम् वै त्वच्छ्रेयागुम् सस्मैरि सोऽब्रवीर् कस्त्वमसि भयम् वै त्वच्छ्रेयागम् सस्मैनि मा देवा अवोचन्नि अथवा इदम् जले प्रजापतौ हलहासीत् तस्मिन्नाधिते एतन्मेन प्रयच्छहमेतेनाम् दे देवानामधिपतिर्भविष्यामीति दे दे को हग्रस्यामित्यब्रवीत् एतत्प्रजायेत् एतत्स्यादित्यब्रवीत् यदेतत्र वीदेशे को हवै नाम प्रजापतिः एवम् वेद विजरेण नाम्ना नाम रस्मै लक्मम् कृत्वा प्रत्यमम् च ततो वा इन्द्रो देवानामधिरविर्भवत् एवम् वेद अभिवतिरेवसमानानाम् भवति सोऽ मन्यता किम् किम् वा अकरमिति स चन्द्रम् वा हरे प्रातपत् यश्चन्द्रवसश्चन्द्रमस्त्वम् यगेवम् वेद चन्द्रवाने भवति ब्रुवन् स्वीर्यो मर्याय गोपायषयति तत्सूर्यस्य सूर्यत्वम् तदेवम् वेद वैनन्दब्रवते कश्चनास्मिन् वा इदमिन्द्रियम् प्रत्यस्थादित्वम् एवम् वेद इन्द्रियाद्वे भवति अयम् वा इदम् एवम् वेद परमामेव काष्ठा देवाः समन्तम् वर्यविशन् परमः विश्वेदेवः उत्तरतः अङ्गिरथः प्रत्यञ्चम् स्वाध्याः पराञ्चम् एवम् वेद उपयेन कुम्धमानाः संविशन्ते स प्रजापचदेव प्रजा आवयत् ताः ता स्मैनातिष्ठन्तान्नाद्याय तामुखम् परस्तात् पश्यन्ते दक्षिणतः पर्यायन् रक्षिणतः पर्यवर्तयत तामुखम् ता परस्तात् पश्यन्ते मुखम् दक्षिणतः पश्चात्पर्यायन् स पश्चात्पर्यवर्तयत तामुखम् पुरस्तात्पश्यन्देः मुखम् दक्षिणतः मुखम् पश्चात् उत्तरतः पर्यायन् स उत्तरतः पर्यवर्तयत तामुखम् पुरस्तात् पश्यन्तेः मुखम् दक्षिणतः मुखम् पश्चात् मुखमुत्तरतः ओर्ध्वा उदायन् ताः सर्वतोमुखो भो त्वा वयत् ततो वेतस्मै त्वजा तिष्ठन्तान्नाद्याय एवम् विद्वान् परिरवर्तयते विज प्रजापतिरेव भूत्वा प्रजापत्यै तिष्ठन्ते अस्मै त्वजा अन्नाद्याय अन्नादरेव भवते प्रजापतिलगामेव महोद्भूजाः स्यामिति सरेदम् दशहोतारमपश्यत् तम् प्रायन्त तस्य प्रजक्ति महोद्भोजानभवत् यः कामजेत भोद्भूयाः स्यामिति सदश होतारम् वयुञ्जीत बहोरेव भूयान् भवेत् स्वकामेतवीरो महाजातेति सदश होदशहोतारम् निरमिता सम्प्रायुक्ता तस्य प्रयुक्तेन्द्रो जायता यः कामजेत वीरो महाजाजेतेति सजरहोतारम् वयुञ्जीत आस्य वीरो जायते स्वकामेतपशुपान् श्यामिति रजतरुहोदः पञ्चहोतारम् निरमेत सम्प्रायुङ् तस्य प्रयुक्तिपशुमान् भवते यः कामने च पशुमान् श्यामिति सपञ्चहोतारम् प्रयुञ्जेत पशुमानेव मे कल्पे रन्दिरे सपञ्चहोदःशब्दहोतारम् निर्मित सम्प्रायुङ् तस्य प्रयुक्तितवोः स्माकल्पन्त यः कामने मे कल्पे रन्दिरे युञ्चेत कल्पञ्चयस्माद्भवः स्वकामेत स्वपः सोमजादेश्याः आमे सोपस्सो मयातिहो निमीत तम् प्रायुङ् तस्य प्रयत्य सोपस्वमजाज्य भवते हास्य कामपस्सोमजाज्यजायता यः कामजेत स्वपस्सो मया आमे सोपस्वमजादीजातेति स सप्तहोतारम् प्रयुञ्जीत सोमवरेव सोमयाजीभवति हास्य सोमसोमयाजी जायते सर्वानेष पशुःपञ्चसा प्रतिष्ठति अभ्यन्मुखेन हे देवाः पशूनविपि वा स्वर्गम् लोकमायन् हे मुष्मल्लोकेऽवक्षुध्यन् हे हे ब्रवन् अमरप्रदानम् वा उपजी विमेति हे सप्तहोतारे निजम् आङ्गे सम्प्राहिण्वन् एतेन अमुत्र कल्पयेति तस्य वा यम् वृत्तिः किम् च एवम् वेद कल्पतेऽस्मै स वा अयम् अनुष्ठेडु यज्ञः सप्त होता अमुत्रसुभ्यो देवेभ्यो हव्यम् वहति देवम् वेद उपैन यज्ञो नपति यो वेशुर्होत्रान् निदानम् वेद निदानवान् भवति अज्ञहोत्रम् वैषहोदम् निदानम् दर्शपूर्णवासौ चतुर्होदः चातुर्मास्यानिपञ्चहोतुः षड् होतुः सौम्याध्वरः सप्तहोदः एतद्दे चतुर्होदृणाम् निदानम् एवम् वेदा निदानफान् भवति ओह्वादिना वदन्ति किञ्चतुर्होदनाम् चतुर्होचतुर्थमिति यदेवेण चतुर्थावतारः तेन चतुर्होतारः तस्माचतुर्होतारमुच्यन्ते तच्चतुर्होत्राणाम् चतुर्होतृत्वम् स्वभावे चतुर्होता अग्निः पञ्चहोता धातारद्धोता इन्द्रः सप्तहोता प्रजापतिषर्दशहोता एवम् चतुर्होत्रणामृद्धिम् वेद तरुधामेवम् बन्धुताम् वेद बन्धुवान् भवति येषामेवमायतनम् वेद आयतनवान् भवति येषामेवम् प्रतिष्ठाम् वेद प्रत्येव तिष्ठति ब्रह्मवादिना वदन्ति दश होता चतुर्होता पञ्चहोता षड्होता सप्तहोता अथ कस्माच्चतुर्होतारमुच्यम् ते इन्द्रोपे चतुर्होता इन्द्रः खलु वे श्रेष्ठोदेवतानामुपदेशनान् यदेवमिन्निःश्रेष्ठम् देवतानामुपदेशनाद्वैत समानानाम् भवति तस्माच्छ्रेष्ठमायन्तम् प्रथमेनैवानुबुध्यन्ते अयमागन् अयमवा साजरे कीर्तिरस्य पो विवागच्छलि जलतामावितः रतोम् प्रथमे नैवानुबुध्यन्ते अयमागन् अयमवा साजरे दक्षिणाम् प्रतिग्रहेष्याम् सप्तदशकृतोपतिदेवी प्रतिगृह्णाति आत्मनो नाच्ये यज्ञैनवात्म्यम् सन्तन्निर्भरेरन् आग्नेनाग् पुरस्तात् प्रत्यम् तिष्ठन् विग्राहम् प्राणानेवस्योपदासयति यद्येन आग्नेतारम् चतुर्गृहीतेनाद्येन पश्चात्प्रागादीनः अनुलोमविग्राहम् प्राणानेवस्मै कल्पयति प्रायश्चित्यैवाग्भवते पृथिमुखऋतुमुखे भवति ैवास्मे कल्पयते कल्पन्ते अस्मार्धवः तर्गा अस्मार्तवः तावे भोक्त्वा प्रजापतिरितगम् तरणमसजत मनसोऽधिकारत्रेमसजतर्गायत्रेलः आर्छत् तामानभत कार्यत्र्याधिचण्डाकस्य साम्नो यजोगश्यसि यजुर्भ्योसि विष्णम् तद्विष्णञ्जरः अर्चद कमालभत विष्णानद्योषधेरसिभ्यो हि तामम् तत्सोमञ्जरः आर्च्छद कमालभत सोमादसिपशोरसल पशुर्भ्योधीन्द्रम् हरेन्द्रञ्जरः आर्छद नैन यद विप्रक्ष्यपत् यद्वा इदम् किञ्च तत्सर्वमुत्थान एवाङ्गे रसः प्रत्यगृह्णात् नगृहीतन्नाहिरत् यत् किञ्च प्रतिगृह्णीयात् तत्सर्वमुत्तानस्थाङ्गेरसः प्रतिगृह्णात् एव प्रतिगृह्णीयात् इयम् वा उत्तानाहङ्गेरसः अन बर्हियाद्गाम् वा स्वम्ब एतद्वै शूनाम् प्रयन्धाम विरेणैवैरन्धाम् वर्तयते योगामिद्वान्यवर्तयते विशीर्षादवाः पामष्कम् भवते अथ च विरुन्यवर्तयते सुीर्डाविवाः पामष्कम् भवते देवता वे सप्तपुष्टिकामान्यवर्तयन्त अग्निश्च वायुश्च अन्तरिक्षम् च आदित्यश्च द्यौस्तिरन्द्रमाः अग्रण्यवर्तयत ससा हश्रमपुष्यते प्रतिवेऽन्यवर्तयत सौषधेभर्वनस्पतिभिरपुष्यते वायुर्ण्यवर्तयत समदेतेभिरपुष्यते अन्तरिक्षन्यवर्तयत तद्वयोभिरपुष्यते आदित्योऽन्यवर्तयत स रश्नुभिरपुष्यते यौन्यवर्तयत सा नक्षत्रेण पुष्यते चन्द्रमान्यवर्तयत सोऽहोरात्रैरधमासैरु मासैरेण पृष्यते कान्पोषान् जालष्ट्रे पुष्यन्ेवम् विद्वान्नि च वर्तते परिच तस्य वा अग्ने हिरण्यम् परिजग्रगुरः अर्धमिन्द्रियस्यापात्ते नैव प्रत्यगृह्णात् तेन वेदो अर्धमिन्द्रियस्यात्मन् उपाधत्ते विद्वा हिरण्यम् प्रति गृह्णाति अथडो विद्वान् प्रतिगृह्णाति अर्धमस्तेन्द्रियस्यापक्रामदे तस्य वे सोमस्य पाधप्रतिजग्रगुरः हृयमिन्द्रियस्यापाक्रामत् हृदयेनैव प्रत्यगृह्णात् तेन वे स तृतीयमिन्द्रियस्यात्मन्नुपाधत्त हृदीयमिन्द्रियस्यात्मन्नुपाधत्ते तृगेवम् विद्वान् वाहपदिगृह्णाति अथविद्वान् परिगृह्णातिजयस्यापक्रामते अस्य वे रुद्रस्य गाम् पदिजग्रगुणः रुतुर्थमिन्द्रियस्यापाक्रामेनैव प्रत्यगृह्णात् तेन वेखल चतुर्थमिन्द्रियस्यात्मन् न बाधत्त रुदृथमिन्द्रियस्यात्मन् न बाधत्ते त्रगेवम् विद्वान् गाम् पदिगृह्णाति अथगम विद्वान् प्रति गृह्णाति चतुर्थमस्तेन्द्रियस्यापक्रामदि तस्य वै वरुणस्याश्वम् प्रतिग्रघुलः पञ्चममिन्द्रियस्यापाक्रामेनैव प्रत्यगृह्णात् तेन वै स पञ्चममिन्द्रियस्यात्मन्नुपाधत्य पञ्चममिन्द्रियस्यात्मन्नुपाधत्ते यदेवम् विद्वानश्वम् प्रतिगृह्णाति अथगव विद्वान् प्रतिगृह्णाति पञ्चममस्येन्द्रियस्यापक्रामदि तस्य वै प्रजापत् पुरुषम् प्रतिजग्रगुणः षष्ठमिन्द्रियस्यापाक्रामत् त्वमेतेनैव प्रत्यगृह्णात् तेन वैष षष्ठमिन्द्रियस्यात्मन् उपासत्ता षष्ठमिन्द्रियस्यात्मनुपासत्ते यदेवम् विद्वान् पुरुषम् प्रतिगृह्णाति अथयो विद्वान् प्रतिगृह्णाति षष्ठमस्तेन्द्रियस्यापक्रामते तस्य वै मनोस्तत्त्वम् प्रतिजग्रगुणः सप्तममिति क्रियस्यापाहक्रामदे प्रत्यगृह्णात् तेन वेसप्तममिन्द्रियश्चात्मनुपाधत्तः सप्तममिन्द्रियश्चात्मनुपाधत्ते प्रतिगृह्णाति अथयो विद्वान् प्रतिगृह्णाति सप्तममस्त्रेन्द्रियश्चापक्रामदे तस्य वा उत्तानश्चेतस्य प्राणप्रतिरग्रगुणः अष्टममिन्द्रियश्चापाक्रामत् तदेतेनैव प्रत्यगृह्णात् सोऽष्टममिन्द्रियस्यात्मन्पाधत्य अष्टममिन्द्रियस्यात्मन्पाधत्य एवम् विद्वानप्राणप्रतिगृह्णाति अथयो विद्वान् परिगृह्णादि अष्टममस्येन्द्रियस्यापक्रामदि यद्वा इदम् किञ्च तत्सर्वमुत्थान एवाङ्गेरतप्रत्यगृह्णात् प्रतिगृहीतम् नाहिन यत्किञ्च प्रतिगृह्णीयात् तत्सर्वमुत्तानस्ताहङ्गीरतः प्रतिग्रन्थापदिग्रन्थीरायम् वा उत्तानाहङ्गेरथः अनणेवेरप्रतिग्रन्थान् नैनगुमविरथे ब्रह्मवादिना वदन्ते यद्दश भवतारः सत्रमास केन ते यच्चतुर्होतारसत्रमासद केन ते गृहवजनार्थवन् केन उडधीरचन्तेति सोमेन वेत् गृहवजनार्थवन् केन उडधीरदशन्त यत्पञ्चहोतारसत्रमासदा केन ते गृहवजनार्थवन् केनेभ्यो लोकेभ्यो तेनेभ्यो लोकेभ्योऽ सुधान् प्राणुसन्त तेनैषाम् पशूनवृन्दत यच्छ्रोतारस्वत्रमासद केन ते गृहवचनाद्भवन् केन तून कल्पयन्तेति धात्रावैते गृहवचनाभवन् तेन तून कल्पयन्त यत्सप्तहोतारस्वत्रमासद केन ते गृहवचनाब्धवन् केन सुवरायन् केनेमान् लोकान् सपदन् वन्यजे हर्यम् ना वैते तेन सुभरायन् एमान् राकान् समदन् वन्दिने हे देवे देवा गृहवजनः तानिरेवम् विद्वान् अप्यन्यस्य कार्यः पते दीक्षते अपान्तरमेव सत्तिनामध्योति यो वार्यमणम् वेदा दानकामास्मे प्रजाभवन्ति यज्ञो भार्यमा आर्यावशतिर्विवेदमाहुर्यम् प्रशकम् सन्ति आर्यावशतिर्भवति य एवम् वेद यद्वा इदम् किम् च तत्सर्वम् चतुर्होदारः चतुर्होदभ्यो यज्ञो जन्मितः हैरेवम् यद्वारिपदेत अहमेव भूयो वेद यश्चतुर्होदरेण वेदेति अस्यैव भूयो वेद यश्चतुर्होद्रेण वेद यो वे चतुर्होदनारम्भोत्रेण वेद सर्वासु प्रजास्वन्नमत्ते सर्वादिलो अभिजगते प्रजापदर्वेदश होदनागम् भवता सोमश्चदर्होदनागम्भोता अज्ञहोतनागम्भोता धाताोदनागम्भोता अर्यमासप्तहोदनागम्भोता एते वैतोदनागम्भोतारः सर्वासु प्रजास्वन्नमत्ते सर्वादिलो अभिजगते प्रजापतिप्रजा स्रष्टाभ्यस्रगुम् सदा स हृदयम् भवतो आत्मनिधा इत्यह्वयत् आपप्रत्यशुण्वन् ताग्निहोत्रेणैव यज्ञक्रतुलापर्यावर्तन्तान्धमोहन् तस्मादग्निहोत्रस्तयज्ञोः एकऋत्विक चतुष्कत्वाह्वयत् अज्ञायुरादित्यश्चन्द्रमाः प्रत्यषण्मन् हेदर्शपोर्णमासाभ्यामेवर्यावर्तन्तर्गश्चत्वार्यङ्गानि तस्माद्रतो प्रत्यषण्मन् तेजागमास्येदेव यज्ञक्रतुनापर्यावर्तन्तर्लोपछवेस्थिति मध्याह्नम् तस्मा चादुर्मास्यानाम् यज्ञतोः पञ्चर्पिनः षड् कृत्वायत् प्रत्यशृण्वन् पशुबन्धेनैव यज्ञः कृत्वा पर्यावर्तन्त तव शिष्यमवाञ्चम् प्राणम् तस्मात् पशुबन्धस्य यज्ञः क्रतोः षडर्पिनः सप्तकृत्वाह्वयत् होत्राः प्रत्यशुण्वन् ता सौम्येनै यज्ञक्रतुना तस्मात् सौम्यस्याध्वरस्य यज्ञकृताः सप्त प्राणेण कुर्वन्ति दशकृत्वात् तत्कर्मणैव संवत्सरेण सर्वैर्यज्ञकृतभिपर्यावर्ततसर्वमात्मानपूरिवर्गमुद तस्मात् संवत्सरे सर्वे कृतमवृभ्यन्ते तस्माद् होता पञ्चहोता षड् होता सप्तहोता एकहोत्रे भरन्ति हरन्त्यस्मै प्रजाफलिम् ऐनवप्रतिक्षातम् गच्छति यदेवम् वेद प्रजापतिपुरुषमसित स्वज्ञरब्रवीत् मम स्वबिभेत् सर्वम् वै मायम् प्रथक्षणीति सेदाकृर्होत्रेणात्मस्मरणानपश्यत् तानुजोत् तैर्वैत आत्मानमस्मृग्निहोत्रम् जोजे एकहोतारमेव तद्यज्ञक्रतुमाःप्नोत्यग्निहोत्रम् आत्मनस्मृनो आदित्यस्य गतायुज्यम् गच्छति चतुरन्नयने कर्तारित आत्मनाङ्गानि स्मृणोति आहितस्य जगारुज्यम् गच्छति चतुर्न्नयते समि पञ्चमे पञ्चहोतारमे पदत्यज्ञक्रतुमाःप्नोति चातुर्मास्यानि नवशमे माम् समस्ति गच्छति चतुर्नयते निर्जहोते षड्भोतारमेव सदा वाण्डौ शिष्टमवाहम् प्राणम् तानि च आत्मनः स्मृणोति आदित्यस्य रथायुज्यम् गच्छति चतुरुन्नयते निर्जहोति समित्सप्तमे सप्तहोदारमाप्नोति सौम्यमधरान् तदा च आदित्यस्य रथायुज्यम् गच्छति चतुर्न्नयते निर्जहोति दुःप्राश्चादेशहोरानेव तद्यज्ञमात्मोचनम् वत्सरम् सर्वम् आत्मानपयवर्ग्रे स्मृणोति आयुक्तस्य सायुज्यम् गच्छति प्रजापदकामे प्रदा सौरञ्जर्वान् भवत् सिदस्या वा भवत् तस्मात्नी हरिणीसे श्या वा भवति कृष्णश्यामो भवत् तस्माः कृष्णश्यामो भवति तस्यासुरे वाजीवत् केनासुरासुरा अनुसुराणामसुरत्वम् एव मधुराणामसुरत्वम् वेद असुमा एव भवति नैनमधुर्जहापि सोऽधुरान् सृष्ट्वापितेवा मन्यतपितरेनाम्पिम् यदेवम् पिदनाम्पितृत्वम् वेद स्वानाम् भवति स्वपुत्रेण सृष्टा मनुष्यद् तदनु मनुष्या तन्मनुष्याणाम् मनुष्यत्वम् एवम् मनुष्याणाम् मनुष्यत्वम् वेद मनस्मे भवति नैनम् मनुर्जहारे तस्मै मनुष्याणाम् तजराय दिवादे वक्त्राभवत् तदनुदेवानसजना तद्देवानाम् देवत्वम् एवम् देवानाम् देवत्वम् वेद निवाहैवाश्च देवत्रा भवति तानि वा एतानि चत्वार्यम् भागुंसि देवा मनुष्या पिटलोसुराः ते सर्वेष्वम् भवनभैव भवति एवम् वेद ब्रह्मवादिना वदन्ति यो वा इमम् विद्या यतोऽयम् पवदे यदभिदुरिदम् पवदे सर्वमायुर्यादि न पुरायुधः प्रमीयेत पशुमान् स्यादे बिन्देन प्रजाम् यो वा इमम् वेद यतोऽयम् पवदे यदभिभवते यदभिदम् पवदे सर्वमायुरेदि न पुरायुधः प्रमीयते पशुमान्भवते विन्दते प्रजाम् अद्य पवदे अपोभिभवते अपोभिधम् अस्याः पवदे इमामभिभवदे इमामभिधम् पवदे अग्नेः पवदे अग्निमभिभवदे अग्निमभिजम् पवदे आदरिक्षात्पवदे अन्तरिक्षमभिभवदे अन्तरिक्षमभिजम् पवदे आदिक्षात्पवदे आदित्यमभिभवदे आदित्यमभिधम् पवदे योः पवदे दिवमभिभवदे दिवमभिजम् पवदे भ्यः पवते दिशोऽभिपवते दिशोऽभिजम् पवते स यत्पुरस्ताद्वादि प्राण एव भव पुरस्ताद्वादि तस्त्वा पुरस्ताद्वान्तम् सर्वाः प्रजाः प्रतिनन्दन्ति प्राणो हि प्रियप्रजानाः प्राणैव प्रियप्रजानाम् भवति यदेवम् वेद स वाहेष माधेष्वेव भोत्वा दक्षिणतोवादि तस्माद्दक्षिणतोवान्तम् विद्या सर्वादिश आवादि सर्वादिशो न विवादि सर्वादिशो न संवादि सपादेशमानरिष्वेव पश्चाद्वादि भवमान एव भूत्वा पश्चाद्वादि पूतमस्मा आहरन्ति पूतमहरन्ति पूतमश्चादि यदेवम् वेद स वा एष भवनमेव अथजलुक्तरतोपाति सविदेव भूत्वोक्तरतोपाति सविते पस्मानाम् भवति यदेवम् वेद स वा एषद विदैवमुपवदन्ति यदेवास्य पुरस्ताः पात्मानः भारस्तेपघ्नन्ति पुरस्तारान् पात्मनः सरन्ते पुरस्ता अथम् दक्षिणतायन्तमुपवदन्ति यडेवासि दक्षणतः पहात्मानः भागस्त्वेपघन्ते दक्षिणत इतरान् पात्मनः सजन्ते अथ एनम् पश्चादायन्तमवदन्ति षडेवास्य पश्चात्पात्मानः भागस्त्वेपघन्ते पश्चादितरान् पात्मनः सजन्ते अथ एनमुत्तरदायन्तमवदन्ति षडेवास्योत्तरतः पाप्मानः भागस्त्वे पघ्नन्ते उत्तरत इतरान्धात्मनः श्रुन्दे तस्मादेवम् विद्वान् वीवलत्येत् हेमचलेत् तस्यैव क्षौभाषेत अण्ठरेदिव काचले दिव शृङ्गारेदेव उतमोपपदे उतमेपात्मानपहन् सजागुम् सनिवेष्यान् स्यात् यदा तान्ति संवातो वायात् सान्धमभिप्रच्छवत् आस्वन्दनपदम् पौर्वाकीर्तिर्गच्छति तानकामास्मै प्रजा भवन्ति यगेवम् वेद प्रजापति राजानमतयो वेदान्वसज्यन्त ता न हस्ते कुरुता असहीता साभित्री स्वकुम् राजानम् च सा हिरम् प्रजापतिमुपसदाय अरम्भोवाच नमस्ते अस्तु भगवः उभत्वायानि रत्वापद्ये स्वमम्बैराजानम् कामने श्रद्धा पृथकामयत इति तस्या उभस्था गर्वगलम्बालङ्कल्पयित्वा दशहोदारम् पुरस्काराद्याख्याय चतुर्होतारम् दक्षिणतः पञ्चहोदारम् पश्चाद षड्भोतारमुत्तरतः सप्तमो दानमुपरिष्कारा संहारेष्टवर्त्यभिष्टमुखेन कृत्वा आस्यार्धम्भव्राज तागुम्भोदीक्षो वाज उपमावर्तस्मे तागु भोगन्तु माचक्ष्व एतन्माचक्ष्वा यत्ते पाणामिति तस्यामुहत्रेण वेदान् प्रददौ तस्मात् भस्ते भोगमैव हारयन्ते कामलेन प्रियस्यामिति म्बा गामने च प्रियः स्यादिति तस्मादेतग्रस्था गमलङ्कारम् कम्पयित्वा दशहोतारम् परस्ताद्व्याख्याय चतुरम् दक्षिणतः पञ्चहोतारम् पश्चात् षड्भोतारमुत्तरतः सप्तहोदानमुपरिष्टात् सम्भारेङ्कृत्य आस्याद्ध भवति